अथ पञ्चनवतितमः सर्गः आर्तानाम् राक्षसीनाम् तु लङ्कायाम् कुले कुले रावणः करुणम् शब्दम् शुश्रावपरिदेवितम् स तु दीर्घम् ध्यानमास्थितः बभूव परमक्रुद्धो रावणो भीमदर्शनः सन्दश्य दशनैरोष्ठम् क्रोध राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्त्तिमान् उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा महोदरम् महापार्श्वम् विरूपाक्षम् च राक्षसम् शीघ्रम् वदत सैन्यानि निर्यातेति ममाज्ञया तस्य तद्वचनम् श्रुत्वा राक्षसास्ते भयार्दिताः चोदयामासुरव्यग्रान् राक्षसां स्तानृपाज्ञया ते तु सर्वे तथेत्युक्त्वा राक्षसाभिमदर्शनाः कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखाययुः प्रतिपूज्य यथा न्यायम् रावणम् ते महारथाः तस्थुः सर्वे भर्तुर्विजयकाङ्क्षिणः ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः महोदरमहापार्श्वौ विरूपाक्षम् च राक्षसम् अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः राघवम् लक्ष्मणम् चैव नेष्यामि यमसादनम् खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा करिष्यामि प्रतीकारमद्य शत्रुवधादहम् नैवान्तरिक्षम् न दिशो न च द्यौर्नापि सागराः प्रकाशत्वम् गमिष्यन्ति मद्बालजलदावृताः अद्य तानि यूथानि भागशः धनुषाशरजालेन वधिष्यामि पतत्रिणा अद्य वानरसैन्यानि रथेन पवनौजसा धनुःसमुद्रादुद्भूतैर्मथिष्यामि पद्म व्याकोश पद्मक् पद्मेसर वर्चसा अद्यूथतटागा गजब्रमताम्यहम सशरईर वदन से वानयूथ पा मंडयिष्य वसुधा सनालरव पंकज अद्यूथ प्रचंडा हरीणा द्रुमयोधिना मुक्तेनैकेषु ना युद्धे भेत्स्यावि च शतम् हतो भ्राता च येषाम् वै येषाम् चतनयो हतः वधेनाद्यरिपोस्तेषाम् करोम्यश्रुप्रमार्जनम् तद्यमद्बाणनिर्भिन्नैः प्रस्तीर्नैर्गतचेतनैः करोमि वाणरैर्युद्धे यत्रावेक्ष्यतलाम् महीम् अद्य काकाश्च गृध्राश्च ये च माम् साशिनोपरे सर्वांस्ताम् तर्पयिष्यामि शत्रुमांसैः शराहतैः कल्प्यताम् मे रथः शीघ्रम् क्षिप्रमाणीयताम् धनुः अनुप्रयान्तु माम् युद्धे येऽत्र शिष्टानिशाचराः तस्य तद्वचनम् श्रुत्वा महापार्श्वो ब्रवीद्वचः बलाध्यक्षान् स्थितांस्तत्र बलम् सन्त्वल्यतामिति बलाध्यक्षास्तु संयुक्ता शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः भिन्दिपालैश्च दघ्नीभिरन्यैश्चापि वरायुधैः अर्थानयम् बलाध्यक्षाश्चत्वारो अश्वानाम् षष्टिकोट्यस्तु खरोष्ट्राणाम् तथैव च पदातयस्त्व सङ्ख्याता जग्मुस्ते राजशासनात् बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनाम् पुरस्थिता एतस्मिन्नन्तरे सूतस्थापयामासतम् रथम् दिव्यास्त्रवरसम्पन्नम् नानालङ्कारभूषितम् नानायुधसमाकीर्णम् नाना रत्नपरिक्षिप्तम् रत्नस्तम्भैर्विराजितम् जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम् तम् दृष्ट्वा राक्षसाः सर्वे विस्मयम् परमम् गताः तम् दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः कोटिसूर्यप्रतीकाशम् ज्वलन्तमिव पावकम् द्रुतम् सूतसमायुक्तम् युक्ताष्टतुरगम् रथम् आरुरोह तदा भीमम् दीप्यमानम् स्वतेजसा ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः रावणः मृदङ्गैः पटहैः शङ्खैः कलहैः सह आगतो रक्षसाम् राजा छत्र सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः योद्धुम् रघुवरेणेति शुश्रुवे कलहध्वनिः तेन नादेन महता पृथिवी समकम्पत तम् शब्दम् सहसा श्रुत्वा वानरादुद्रुगुर्भयात् रावणस्तु महाबाहुः सचिवैः परिवारितः आजगाम महातेजाजयाय विजयम् प्रति रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ विरूपाक्षश्च दुर्धर्षो रथा नारुरुःस्तदा ते तु हृष्टाभिनर्दम् तो भिन्दन्त इव विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ततो युद्धाय तेजस्वी रक्षो गणबलैर्वृतः निर्ययाबुध्यतधनुः कालान्तकयमोपमः ततफ प्रजविताश्वेन रथेन स महारथः द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः द्विजाश्च ने दुर्घोराश्च सञ्चचाल च मेदिनी ववर्षरुधिरम् देवश्च स्खलुश्चतुरङ्गमाः शिवाः नयनम् वामो बाहुरकम्पता विवर्णवदनश्चासीत् ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे अन्तरिक्षात्पपातोऽल्का निर्घातसमनिःस्वना एता न चिन्तयन् घोरानुत्पातान् समवस्थितान् निर्ययौ रावणो मोहाद्वधार्थम् कालचोदितः तेषाम् तु रथ घोषेण राक्षसानाम् महात्मनाम् बाणराणामपि च मूर्युद्धायैवाभ्यवर्तत तेषाम् तु ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः वाणराणामनीकेषु चकारकदनम् महत् निकृत्तशिरसः केचिद्द्रावणेन बलीमुखाः केचिद्विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः निरुच्छ्वासाहताः केचित् केचित्पार्श्वेषु दारिताः केचिद्विभिन्नशिरसः दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन सङ्ख्ये ततस्ततस्तस्य शर प्रवेगम् सोढुम् न शेकुर्हरियूथपास्ते इत्यार्षे शे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः